श्रीहरये नमः अथ अष्टदशोऽध्यायः श्रीशुक उवाच अथ कृष्णः परिवृतो ज्ञातिभिमुदितात्मभिः अनुगीयमानोऽन्य सद्व्रजं गोकुलमण्डितं व्रजे विक्रीडतोरेवं गोपालश्चद्ममायया ग्रीष्मो नामर्दुरभवन्धनाथे प्रेयान् शरीरिणा स च वृन्दावनगुणैर्वसन्त यत्रास्ते भगवान् साक्षात् रामेण सह केशवः यत्र निर्जरनिर्ह्राद निवृत्तस्त्वन जिल्लिकं शश्वत्तः शश्वत्तच्छीकरर्झीषद्भ्रममण्डलमण्डितं सरित्सरः प्रस्रवणोर्मिवायुना कल्कारकञ्चोत्पलरेणुहारिणा न विद्यते यत्र वनौकसाम्भवो निताकवन्ह्यर्कभवोऽतिसाध्वले अघाततो समन्ततः न यत्र चण्डां भुवोरसं सद्वलितं च वनं कुसुमितं श्रीमन्न चित्रमृगध्वजं गायन्मयूरभ्रमरं गोचत् कोकिलसारसम् क्रीडिष्यमाणस्तत्कृष्णो भगवान् बलसंयुतः वेणुं विरणयन् गोपैर्घोतनैः संमृतोऽि स प्रवालबर्हस्तभगश्रग्धानुकृतभूषणाः रामकृष्णोदयो गोपानन्तृतोर्युयुधुर्जुगुः कृष्णस्य नृत्यत केचित् केशिधवातयन् वेणुपाणितलै शृङ्गैः प्रशंसतापरे गोपजातिप्रतिच्छन्तौ देवा गोपालरूपिणः ईटिरे कृष्णरामौ च नटा नटं नृप ब्राह्मणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः चिक्रीडतोर्निद्योध्येन काकभक्षतरौ क्वचित् क्वचिन्नृत्यस्तु चान्येषु गायकौ वातकौ स्वयम् सशं चतुर्मकाराज सा तु साद्वितिवादिन क्वचित्भिल्वै क्वचित् कुम्भै क्वचामलमुष्टिभिः अस्पृश्य नेत्रबन्धाद्यै क्वचिन्मृगेहय क्वचिच्च धर्धुरप्लावैर्विभितैरुपहासहैः कदाचित् स्पन्दोलिकया गर्हिचिन्नृपसेष्टया एवं तौ लोकसिद्धापि क्रीडाभिश्चेरतुर्वने नद्यत्रिद्रोणिकुञ्जेषु काननेषु सरस्सु रामकृष्णयोः गोपरूपी प्रलम्भो घातसुरस्तज्जिहीर्षय सं विद्वानपि दासार्हो भगवान् सर्वदर्शनः अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् तत्रो बाहूय गोपालान् कृष्णप्राह विहारवेत् हे गोपा तत्र चक्रोः परिवृढौ गोपा रामजनार्दन कृष्णसङ्घट्टिनः केचिदासन् रामस्य चापरे आचेचुर्विविधा क्रीडा वाक्यवाकलक्षणाः यत्रारोहन्ति जेतारो वहन्ति च पराजिताः वहन्तो वाह्यमानाश्च चारयन्तस्य गोतनं भाण्डीरकं नाम वटं जग्मो कृष्णपुरोगमाः रामसङ्घट्टिनो श्रीधाम वृषभादयः क्रीडायां जैनस्तां स्थानुः कृष्णाधयो नृप भगवान् श्रीधामानं पराजितः वृषभं भद्रसेनस्तो प्रलम्बो रोहिणीसुतम् अविषह्यं मन्यमान कृष्णं दानव पुङ्गवः वहन्धृतरम् प्राघातवरोहणः परं तमुद्भगन्धरणिधरेन्द्रगौरभं महासुरो विगरतयो निजं वपुः स आस्तितः पुरटः परिश्चो भवडित्युमान् उडुपति वाडिवाम्बुतः निरीक्षतत्वपुरलमम्बरेशरत्प्रदीप्तदृक्प्रकुटितडोग्रदंश्रकम् ज्वलच्चिकं कटककिरीटकुण्डलाद्विषाद्भुतं हलधर ईषदस्त्र सत् अधागतस्मृतिरभयोरिपुम्भलो विहाय सार्थमिव हरन्तमात्मनः वृषाघनश्चिरसिदृढेन मुष्टिना सुरादिभो गिरिमिव वज्ररंहस सहातः मुखाद्भमन् रुतिरमपस्मृतोऽसुरः महारवं व्यसुरपधत् समीरयन् गिरिर्यथा मगवत आयुधाहतः दृष्ट्वा प्रलंभं निहतं भलेन बलशालिना गोपा सुविस्मिता आसन् साधुसाद्वितिवादिनः आशिषोभिकृणस्तस्तं प्रससंस्तधर्हणं प्रत्यागतमिव आलिङ्ग्य प्रेमविह्वलचेतसः पापे प्रलम्बे निखते देवा परमनिर्व्रताः अभ्यवर्षन बलं माल्ये सशंशुसाधु सा साद्विथी इति श्रीमद्भगवते महापुराणे दशमस्कन्ते पूर्वार्धे प्रलंभवतो नाम अष्टदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविन्द गोविन्द सद्गुरुनाथमघराज् की जय